ॐ परमात्मने नमः श्री जगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे त्रयस्विंशोऽध्यायः देवी वाचे मन्माया शक्ति संकोप्तं जगत् चराचरम् सापि मत्तपुथं माया नास्त्येव परमार्थतः व्यवहारे दृशा सेयं विद्या मायेति विश्रुता तत्तद्दृष्ट्या श्रुता नास्त्येव तत्समेवासि केवलम् साहं सर्वं जगत् श्रुत्वा तदन्ते प्रविशाम्यहम् माया कर्माधिसहिता ण पुरस्तरे लोकान्तर्गते नो चेत् कथं च दृतिहेतुना यथा यथा भवन्त्येव मायाभेदात् तथा तथा उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा उच्च ने चादिवस्तूनि भासयन् भास्करस्तदाय न दुष्यति तथेवाहम् दोषे लिप्ता कदापि न मयि बुद्ध्यादिकर्तृत्तम् अद्यस्यैवापरे जनः वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धय अज्ञानभेदतस्तद्वन् माया भेदतस्तथा जीवेश्वर्विभागश्च कल महाकाश विभाग कल था तथा कलदीवात्मात्मो यदा जीवे जीव बोत्म चयत तथे बहुत मयह न स्वभाव देहेन्द्रियादिसंघातय वासना भेद भेदिताय गुणानां वासना भेदिताय धराधरे माया परभेदस्य हेतुर् नान्यः कदाचन मयि पोतं च धरणीधरे ईश्वरोऽहं च सूत्रात्मा विरात्माहमस्मि च ब्रह्माहं विष्णुरुद्रोचे गौरीभ्रामी च वैष्णवी सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् पशुपक्षी स्वरूपाहम् चाण्डालोऽहं च तस्करः व्याधोऽहं क्रूरकर्माहम् तत्कर्माहं महाजनः श्रीपुन्नपुंसकाकारोऽपि अहम् एव न संशयः यच्च किञ्चित् क्वचिद् वस्तु दृश्यते श्रूयते पि वा अन्तर्बहि च तत्सर्वं मया त्यक्तम् वस्तु किञ्चित् चराचरम् यद्यस्य चेत् तत् शून्यं तत् वन्द्यापुत्रोपमम् वितत् प्रज्जुर्यथा सर्पमाला वेदैरेखा विभातिः तथैव वे शादिरूपेण साम्यं न संचयः अधिष्ठानातिरेकेण कल्पितं तन्न भासते तस्मान्नै तत् सत्ता वा नान्यथा भवेत् हिमालय उवाच यथा वदति देवेशि समस्यात्मा वपुषिरं तथैव द्रष्टुमिच्छामि यदि देवी कृपामयि दासवाच इति तस्यैवचः श्रुत्वा सर्वे देवास्त विष्णवः न नन्दुर्मत्मानः पूजयन्तश्च तद्वचः अथ देव मतम् ज्ञात्वा भक्तकामदुःखाशिव न दर्शयन् निजं रूपम् भक्तकामप्र अपश्यन्ते महादेव्या ौर्मस्तकं भवेद्यस्य चन्द्रस्रूयो चक्षुषी दिश्रोत्रे वचो वेदः प्राणो वायुप्रकीर्तितः विश्वं हृदय इत्याहुः पृथिवी जघनं स्मृतं नभस्थलं ना नाभितरो ज्योतिश्चक्रमुरस्थलम् लोक सुग्रीवा स्यात् जनो लोको मुखं स्मृतम् तपो लोको रटे तु सत्यलोकादध स्थितः इन्द्रादयो बाहवस्युः शब्दः श्रोत्रम् महेशितुः न सत्य गन्धो घानं स्मृतो बुधै मुखं अग्निः समाख्यातो दिवार पक्ष्मणी ब्रह्मस्थान भ्रो विजृंभ चाहपस्ता प्रकर्तिसोचिहा समो धन प्रकीर्तिहक हास माया प्रकर्ति स्वर्गस्वोलोष्ठो महेश लोभश्चा दश रोष्ठो स्यात् धर्ममार्गस्तु पृष्ठभू प्रजापति च मेढं स्यात् जगति तले कुक्षि समुद्रा गिरयो देव्या महेशितु नद्यो नाड्यः समाख्याता वृक्षाख्ये च प्रकीर्तिता कौमारयो वनजराय वयोश्च गतिरोत्तमा बलायकास्तु केशास्युः सन्ध्येते वासे विभो राजन् श्री जगदाम्बाय चन्द्रमास्तु मनस्मृतः विज्ञानशक्ति त्वरि रुद्रोऽकरणं स्मृतम् अश्वाभिजात ह्य सर्वः देशे ोणीदेशे स्थिता विभो अतलदे कत्य कट्यधो भगतां गतः एतादृशम् महारूपम् ददृशुः सुरपुङ्गवहाय जाला माला सहस्राम् लेलिहानं च जिह्वय दट्रा कटकटारामन्तं वह्निमक्षिभिः ुधरं वीरम् ब्रह्मक्षयत सहस्रशिशनयनम् सहस्रचरणं तथा कोटि सूर्यपतेकाशम् विद्युत्कोटि समप्रभम् भयङ्करं महाघोरम् सुदक्षिणोस्त्रासकारकम् ददृशोस्ते सः सर्वे हाहाकारं चक्रिरे विकम्पमान हृदया मूर्छां मापुर्दुरत्ययां मरणं च गतं तेषां जगद्दम्भेयमित्यपि अथते ये सिता महाविभो बोधयामा सुरत्युग्रम् मूर्छातु मूर्च्छितान् सुरान् पथते धैर्यमालम्ब्य लब्धा च श्रुतिमुत्तमाम् प्रेमासु पूर्णनयना वृद्धकण्ठासु निर्जर पार्श्वे गद्गदया वाचोतुम् समुपचक्रिरे देवाऊचुः अपराधं चमस्वाम्ब पाहि दीना तदुद्भवान् कोपं संहर देवेशि सभया दर्शनात् का काते का तु स्तुति प्रकर्तव्या सामरे निजरिहे स्वस्याप्यज्ञेय एव असौ यावान्यश्च स्वविक्रम हे तदर्वा जायमानानां विचयो भवेत् नमस्ते भुवने शानि नमस्ते प्रणवात्मिके सर्ववेदान्तसंसिद्ध्ये नमो हलङ्कारमूर्तये यस्मादग्नि समुत्पन्नो यस्मात् सूर्यश्चन्द्रमः यस्मात् ओषधयः सर्वाः तस्मै सर्वात्मने नमः यस्माच्च देवः सम्भूतः सद्यः पक्षिण एव च पशवश्च मनुष च तस्मै सर्वात्मने नमः प्राणापानो व्रीहिभौ तपश्रद्धामृतं तथा ब्रह्मचर्यं विधि सैवे यस्मात् तस्मै नमो नमः सप्त प्राणाचिशो यस्मात् समेधय सप्त एव चो तथा लोकः तस्मै सर्वात्मने नमः यस्मात् समुद्धिरयः सिन्धवः प्रचलन्ति च यस्मादोषधयः सर्वा तथा तस्मै नमो नमः यस्माद्यज्ञायूपश्च दक्षिणः रुचो यजुंसि सामाने तस्मै सर्वात्मने नमः नमः पुरस्तात् पृष्ठे च नमस्ते पार्श्वयो द्वयोः अध ऊर्ध्वम् चतुर्दीक्षु मातर्भूयो नमो नमः उपसंहर देवेशी रूपम् एतदलौकिकम् तदेव दर्शयास्माकम् रूपम् सुन्दर सुन्दरम् व्यासोवाच इति भीतान् सुधान् जगदम्बा कृपाणव संहृत्य रूपम् घोरम् तत् दर्शयामास सुन्दरम् पाशाङ्कुश्यवरा भीति धरम् सर्वाङ्गकोमलम् करुणापूर्णनयनम् मन्दस्मेतमुखाम्बुजम् दृष्ट्वा तत् सुन्दरम् रूपं तदा भीति विवर्जितः शान्तचित्ताः प्रणे मुस्ते मूर्ते हगदनी श्रीमद्देवी भागवते महापुराणे चादृशसंहितायां सप्तमस्कन्धे श्रीदेवी विराट्रूप दर्शनसहितं देव कृतवर्णनं नाम त्रयस्त्रिंशोऽध्याय श्री श्रीजगदम्बिकाय अर्पणमस्तु